मुद्दपुराण खंडम फाइव लंबोदरचर अध्या फोर्टी फोर् ध्यान दूर्वागिपूजा विधिवर्णनम श्रीगणेशा नम मुगल उवाच ये मईलसराजर्षि कनिष्ठापरायण गणेशम भज निध गृत्समदस्तथा ध्यात्वा गजाननं देवमेकान्ते तद्गदाखिलः मानसि राज्यभोगे स निःस्पृहः सम्बभूवः पुत्रे राज्यं परित्यज्य पूजयित्वा गजाननं ध्यानयुक्तस्वभावेना तिष्ठत्तत्रैव नित्यदा दक्ष उवाच गणेशस्य ध्यानमैलकृदमे वदसाम्प्रदम् तथाहम् ध्यानसंयुक्तो भजिष्यामि निरन्तरम् मुद्गल उवाच यथैलो नृपवर्यस्य गार्ग्या ज्ञात्वा गणेश्वरम् अभजध्यानयुक्तश्च तद्ध्यानम् शृणुमानद अयल उवाच नमामि विघ्नेश्वरपादपङ्कजं सुचिह्निदं चाखिलदं निजात्मनां ध्वजासि पद्माभयवज्रलाञ्छनै परश्वधेनैव सुकोमलं परं परम् सुरक्तपादाङ्गुलकैः सुकोमलैर्नखप् प्रभाम्रतया सुराजितं सुगुल्फयुक्तं मृदु मांसलं महन्मोहं हरेत्तत्तिमिरं हृदि स्थितं जङ्घे परे रक्तसुभामये तदोध्यायामि मांसेन युदे सुकोमले तज्जानुनी मांसलके सुरोमभिरा सुरोमभिराकोमलैर्वक्रशिखैः सुसंवृते ऊरूसुमांसेन समावृतौ परौ रम्भासमानौ सुविराजितौ तथा रक्तौ हृदा चिन्तनमात्रभावदो भक्तिप्रदौ विघ्नहरस्य चिन्तये कडिं सदा मां सलरक्तरञ्जितां सुवर्तुलां मध्यमभागसंश्रिदां गणेश्वरस्यैव तु चिन्तयाम्यहं सदा सुखानन्दकरस्य नित्यदा वस्त्रं सुरक्तं हृदि चिन्तयाम्यहमनन्ध्यमौल्यं कडिभागसंस्थितम् नाभिं सुवृत्तां परमश्रियायुधां शेषस्य संवासकरीं तु चिन्तये महोदरं मां सलभावसंयुधं सुरोमयुक्तं प्रभया विराजितं विचिन्तयेहं सकलप्रकाशकं त्रयी प्रमूलं परमव्ययं परम् श्रीवक्रतुण्डस्य विशालरूपकं वक्षस्तथा रक्तमयं सुमांसलं रक्तं स्तनाभ्यां हृदयं तु चिन्तये तत्र सुखप्रदं परं कण्ठं त्रिरेखायुधमेव मांसलं रक्तम् गणेशस्य च तेजसायुधं स्कन्धौ वृषस्कन्दसमौ सुकोमलौ ध्यायामि चित्ते सततं सुरक्तकौ बाहु सदा मां सलकौ प्रभासितौ स्वानन्दनाथस्य मनोदिसौख्यदौ हस्तौ तथा रक्तसुतेजसायुतौ वामौ हृदा दक्षिणकौतु चिन्तये कराङ्गुलिर्विंशतिकासु वर्तुला नखैः सुरक्तैश्च सुतेजसा युधाः गणेश्वरस्यैव हृदि प्रचिन्तये स्वभक्तरक्षाकरिकाः सुभूषिताः मुखं तु शुण्डायुधमेव चिन्तये त्रिनेत्रयोक्तं परमप्रकाशकम् सदैकदन्तस्य च तीक्ष्णदन्तकम् स्वभक्तकान्प्रेम रसेन सौख्यदम् कर्णौ विशालौ हृदि चिन्तये परौ भक्ताय निष्काम सुकामदौ तथा शूर्पाकृतिचञ्चलभावधारिणौ विघ्नेश्वरस्यैव च वेदरूपिणौ कपोलकौ षट्पदरूपधारिभिर्मुनीश्वरैर्ब्रह्ममदद्रवार्थिभिः सुसंवृतौ नादयुधैर्निरन्तरं गणेश्वरस्यैव हृदा विचिन्तये भालम् सुदेजोयुदमेव चिन्तये श्रीढुण्डिराजस्य निशाकरस्थलम् रक्ताष्टगन्धैश्च सुचित्रिदम् प्रभोर्बिन्दुप्रयुक्तम् त्वद तण्डुलैर्युदम् केशै समाचादिदमस्तकम् तथा सचिंत विघ्न विनाशकारिण ब्रह्मा प्रभुमस्तक्रिते कुंभस्थे ब्रह्मवर वरस्य सौख्य गणेशदेह पिचिंदयाम्य हम सुभूषणूष विचिक अनर्कमूल्य सुवस्त्रकैस्तथा सुशोभिदं ब्रह्मवरस्य सर्वदा विचित्रगन्धैः परिलेपितं तथा सुचित्रिदं भक्तवरैः सुयोगिभिः गणाधिपं साधु हृदिस्थितं सदा विचिन्तयेहं निजभक्तिलालसम् पाशाङ्गुशाद्यैश्च सुस्संस्तुतं परं ढुण्डिं प्रमोदादिभिरेव नित्यता गणेश्वरं देववरैस्तदो दुर्राजेन पूज्यं च सुचिन्तये हृदि वेदैः पुराणाय स्मृतिभिश्च शास्त्रकैस्तोत्रायस्तुदं देहधरैर्विचिन्तते ब्रह्मििया गणैरसंख्यकर्भक्रिया तथा मुद्दुख्यकम सर्वांग संशोभन रूपयुक्तया सिद्धिया गणेश हृदय संसेद वामगया सुशक्ति सिद्ध्यादि संवृतया स्वमायया बुद्ध्या कलाभिश्च सुसेवितं तथा विद्याभिरादाद्गणनायकं हृदि सर्वाङ्गसंशोभनया स्वमायया सञ्चिन्तये दक्षिणभागभूषया लक्षेण लाभेन च विघ्ननायकम् संसेविदं शोभनशोभनेन तु सञ्चिन्तये पुत्रवरेण सर्वदा ब्रह्मेश्वरं भक्तजनैः स्वधामगैः अनन्दमन्त्रै कथितं स्वरूपकं विचिन्तये वक्तुमशक्यभावतः हृदि स्थितं ध्यानसुलोलुपं परम् गणेशरम ब्रह्मयागधारिण मुगल उवाच यम सराजर्षिगणेश भजने र्या सदा ठद्गणेश निवृत्ति प्रातः काल सारी कस्मीपति धर्मयुक्तं चकारापि नित्यं कर्मनिरन्तरं ततो गणेश्वरं भक्त्या पूजयद्भक्तिसंयुधः यथा गार्ग्येण भो दक्ष शिक्षितः स तथाकरोत् शमीमन्तार दूर्वाश्चापूजयद्भक्तिसंयुधः त्रांगुराग्यम सुषं चाचिनो नृप दक्ष उवाच शमीमंतार शमीमंतादूर्वाण पूजनम वद मुद्ग सिर्बुदेच विप्रेन्द्र सुतोलाभ शमीमंतार दूर्वाण प्रार्थनाकी दृशी भवेत् तां कृत्वा पुष्पपत्रादीं चिनोम्यकं त्वदाज्ञया केन मन्त्रेण योगीन्द्रशमी मन्दारकांस्तदा नरोत्तमो गणेशाय परेशाय समर्पयेत् मुद्गल उवाच दक्ष शृणु दक्षमहाप्राज्ञगाणपत्यपरायणसन्तुष्टो संविशेषेण प्रश्नेन च वदामि ते गणेशस्यैव मन्त्रेण पूजनीया इमे मताः वस्तुभिर्गाणपत्यैश्च अभवं स्तोषसंयुताः स्त्री पुंभावात्मकं दक्ष नास्ति तत्र विचारदः गकारसिद्धिरूपश्च नकारो बुद्धिरुच्यदे। तयो स्वामी गणेश सत्रेधारूपधरो बभौ गणास्तस्य तथा पूज्य गाणपत्यैश्च मन्त्रकैः गकाराद्बिम्बभावाख्यो लक्षपुत्रः प्रकथ्यते तथा गकाररूपाद्वै लाभस्तौ तन्मयौ मदौ शमीमन्तारकौ दक्षवरदानाद्विशेषदः गणेशाकाररूपौ तौ भावयेन्नात्र दूर्वां देवीं गणेशस्य मन्त्रेणापूजयेन्नरः अथवा वैदिकैर्मन्ध्राय काण्डादिभिः प्रपूजयेद् नाम मन्त्रेण शूद्रस्तान् पूजयेत्सर्वभावदः ये ददेवरहस्यं ते कथितं सर्वमञ्जसा प्रार्थनां ते प्रवक्ष्यामि शृणु दक्षमहामदे स्नानयुक्तो वनं गत्वा धवा पुरे स्वमन्दिरे यत्र दूर्वाचमन्तारशमीतिष्ठति तत्र गत्वा प्रणम्य तानादौ प्रार्थयेत् भक्तिसंयुतः दूर्वेन्नब्रह्मरूपे चामृतरूपे सदाङ्गुरे गणेशप्रीणनार्थाय चिनोमि त्वां क्षमस्व भोः शमीस्सर्वप्रदेवि गणेशरूपधारिणि चिनोमि त्वां गणेशस्य प्रीणनाय नमाम्यहं मन्दार वाञ्छितार्थस्य दादर्विघ्नेशरूपकक्षमस्वप्रीणनार्थाय गणेशस्य चिनोम्यहम् एवं प्रार्थ्यप्रजानाथ शमीमन्तारकौ पुरा दूर्वापत्राणि पुष्पाणि विभुं ह्यानाय्य पूजयेत् सहस्रनाममन्त्रैश्च अष्टोत्तरशतैर्नरः एकविंशतिकैश्चैव नामभिस्ताः समर्पयेद् अथवा मूलमन्त्रेण नाम मन्त्रेण वा तथा गणेश्यैर्विविधैर्मन्त्रैर्दूर्वादीनि समर्पयेद् यदत्ते कथितं सर्वं रहस्यं पावनात्मकं गाणपत्यप्रदं पूर्णं किम्भूय भूय श्रोतुमिच्छसि ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते ध्यान दूर्वादि पूजाविधि दूर्वादिपूजाविधिवर्णनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ओम्